द्वादशोऽध्यायः ध्यानम् ओ विद्युद्दामसमप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिकरवालखेटविलसद्धस्ताभिरासेविताम् हस्तैश्चक्रगदासिखेटविशिखांश्चापम् गुणम् तर्जनीम् बिभ्राणामनलात्मिकाम् शशिधराम् दुर्गाम् त्रिनेत्राम् भजे ओम् देव्युवाच एभिस्तवैश्च माम् नित्यम् स्तोष्यते यस्समाहितः तस्याहं तस्याहम् सकलाम् बाधाम् नाशयिष्याम्य संशयम् मधुकैटभनाशम् च महिषासुरघातनम् कीर्तयिष्यन्ति ये तद्वद्वदं शुम्भनि शुम्भयोः अष्टम्याम् चतुर्दश्याम् नवम्याम् चैकचेतसः श्रोष्यन्ति चैवये ये भक्त्या मम माहात्म्यमुत्तमम् न तेषाम् दुष्कृतम् किञ्चित् दुष्कृतोत्थानचापदः भविष्यति न दारिद्र्यम् न चैवेष्टवियोजनम् शरतृतो न भयम् तस्य दस्युतो वा न राजतः न शस्त्रा न लतौ यौघात् पठितव्यं सम्भविष्यति तस्मान्ममैतन्माहात्म्यम् पठितव्यम् समाहितैः श्रोतव्यम् च सदा भक्त्या परम् स्वस्त्ययनम् हि तत् उपसर्गा महामारी समुद्भवान् तथा त्रिविधमुत्पातम् माहात्म्यम् शमयेन्मम यत्रैतत्पठ्यते सम्यक् नित्यमायतने मम सदा न तद्विमोक्ष्यामि सान्निध्यम् तत्र मे महोत्सवे सर्वम् ममैतच्चरितमुच्चार्यम् श्रव्यमेव च जानता जानता वापि बलिपूजाम् तथा कृताम् प्रतीक्षिष्याम्यहम् प्रीत्या वह्निहोमम् तथा कृतम् शरत्काले महापूजा क्रियते या च वार्षिकी तस्याम् ममैतन्माहात्म्यम् श्रुत्वा भक्तिसमन्वितः सर्वा बाधा विनिर्मुक्तो धनधान्यसुतान्विरः मनुष्यो मत्प्रसादेन भविष्यतिनसंशयः न संशयः श्रुत्वा ममेतन्माहात्म्यम् तथा चोत्पत्तयः शुभाः पराक्रमम् च युद्धेषु जायते निर्भयः पुमाने रिभवः संक्षयम् यान्ति कल्याणम् चोपपद्यते नन्दते च कुलम् पुंसा माहात्म्यम् मम शृण्वता सर्वत्र दर्शने। ग्रह शातिक था दुस्वर्शने ग्रहपीड़ासु चोद्रासु महात्म्यं शृणुया मसर्गा्रहपीडाश दारुणा दुस्वर्दस्व मुपजाते बागग्रहा शांकारकम सङ्घातभेदेचनुणाम् मैत्रीकरणमुत्तमम् दुर्वृत्तानामशेषाणाम् बलहानिकरम् परम् रक्षोभूतपिशाचानाम् पठनादेवनाशनम् सर्वम् ममैतन्माहात्म्यम् मम गन्धदीपैस्तथोत्तमैः विप्राणाम् भोजनैर्होमैः प्रोक्षणीयैरहर्निशम् अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या प्रीतिर्मे क्रियते सास्मिन्सकृत्सुचरिते श्रुते श्रुतम् हरति पापानि प्रयच्छति रक्षाम् करोति युद्धेषु चरितम् यन्मे दुष्टदैत्यनिबर्हणम् तस्मिन् श्रुते वैरि कृतम् भयम् न जायते युष्माभिस्तुतयो याश्च याश्च ब्रह्मऋषिभिः कृताः ब्रह्मणा च कृतास्तास्तु अरन्ये शुभाम् मतिम् प्रान्तरे वापि दावाग्निपरिवारितः दस्युभिर्वावृतस्यून्ये गृहीतो वापि शत्रुभिः सिंहव्याघ्राणुयातो वा वने वा वनहस्तिभिः राज्ञा चाज्ञप्तो वध्यो बन्धगतोऽपि वा आघूर्णितो वा वा तेन स्थितः ते शस्त्रेषु सङ्ग्रामे भृषदारुणे सर्वा बाधासु घोरासु वेदनाभ्यर्थितोऽपि वा स्मरन्मैतच्चरितम् नरोमुच्येतसङ्कटात् मम प्रभावात् सिंहाद्या दस्यवो वैरिणस्तथा दूरादेव मम ऋषिनिर्वाच इत्युक्त्वा भगवती चण्डिका पश्यतामेव देवानाम् तत्रैवान्तरधीयत तेऽपि देवानिरातङ्काः स्वाधिकारान्यथा पुरा यज्ञभागभुजः सर्वे चक्रुर्विनिहदारयः दैत्याश्च देव्या निहते शुम्भे देवरिपो युधि जगद्विध्वंसिनि तस्मिन्महोऽग्रेतुलविक्रमे निशुम्भे च महावीर्ये शेषाः पातालमाययुः एवम् भगवती देवी सानित्यापि नित्यापि पुनः पुनः सम्भूय कुरुते भूपजगतः परिपालनम् तयैतन्मोह्यते विश्वम् सैव विश्वं, विश्वं प्रसूयते सा याचिता च विज्ञानम् तुष्टारुद्धिम् प्रयच्छति व्याप्तम् तयैतत्सकलम् ब्रह्माण्डम् अनुजेश्वर महाकाल्या महाकाले महामारीस्वरूपया महामारी सब काले महामरी सब सृष्टिर्भव तज स्थि कौती भूताले सनातनीकाृर्वृद्धि प्रदा गृहे सैवा भाव तथा संपूजिता सुपूजिता पुष्पूपंधदिस्त कदा निवित्तम् पुत्रांशमतिम् धर्मेगतिं गतिम् शुभा इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्मन्तरे देवीमाहात्म्ये फलस्तुतिर्नामद्वादशोऽध्यायः